नारायणीयं दशकं मीटर टु मीटर्वंशस्थम् कदा विजन्मर्क्षदिने तव प्रभो वधू महीसुरा महानसस्त्वां सविधे निधायसा सा महानसादौ ववृते व्रजेश्वरी तदो भवत्राणनियुक्तबालकप्रभेदि सङ्ग्रन्दनसङ्कुलारवैः विमिश्रमश्रवि भवत्समीपदः परिस्फुटद्दारु तदस्तदाकर्णन चड़ा तदस्तदा वक्षोज वक्षोजभराव्रजाङ्गनाः भवन्तमन्तर्दृश्युः समन्ददो विनिष्पदद्दारुणदारुमध्यगं शिशोरहो किं किमभूदि द्रुतं प्रधाव्यनन्दः भूसुराः भवन्तमालोक्य यशोदयाधृतं समाश्वसन्नश्रु जलार्द्र लोचनाः कस्को नु विस्मयो विसङ्कडं यच्चकडं विपाडितं न कारणं किञ्चिदिहेदिते स्थितास्वनासिका दत्तकरास्त्वदीक्षकाः कुमारकस्यास्य पयोधरार्धिनः दने लोलपदाबुज मया मया मृषमो विपर्यगातीशते पालकबाका जगु तदा किंचिदाद कुमार दुर्घटम वचह विदुरैरिदं मनागिवाशङ्ग्यदृष्टपूतनैः प्रबालताम्रं किमिदं पदं क्षदं सरोजरम्यौ नुकरौ विरोजितौ यदि प्रसर्पत्करुणा तरङ्गितास्त्वदङ्गमापस्पृशुरङ्गना जनाः अये सुदं देहि जगत्पथे कृपा तरङ्गपादात् परिपादमध्य मे यदि स्म सङ्गृह्य पिता त्वदङ्गकं मुहुर्मुहुश्रुष्यति जादकण्टकः अनोनि लीन किल हन्तुमागध सुरारिरेवं भवदा विहिंसिदः प्रजोऽपि नो दृष्टममुष्य तत्कथं सशुद्धसत्त्वे त्वयि लीनवान् ध्रुवं प्रपूजितैस्तत्र तदो द्विजादिभिर्विशेषदो लम्भिदमङ्गलाशिषः व्रजं निजैर्बाल्यरसैर् विमोहयन्मरुत्पुराधीश रुजां जहीहि मे सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द